गणाधिप रक्तं रक्ताम्बराढ्यं गजवदनमजं चन्द्रचूडं त्रिनेत्रं पाशं चैवाङ्कुशाढ्यं वरदमभयके दन्तखण्डं वहन्तं गणानामधिपं तं सकलजगदधिष्ठानदेवं प्रियाढ्यं सिंहारूढं सतुन्दं गणपतिजनकम् विघ्नराजं नमामि